पद् दशकम् ध्रुवचरित्रम् उत्तानपादनपतेर्मनुनन्दनस्य जाया बभूवसुरुशेर्नितरामभीष्टा अन्या सुनीतिरिति बर्दुरनादृता त्वामेव निद्यमगतिः शरणम् गताभूत् अङ्गे पितुः सुरषिपुत्रगमुत्तमम् तम् दृष्ट्वा ध्रुव किल सुनीतिसुदो दिरोक्षन् आक्षिषिपे किल शिशुः सुतराम् त्वन्मोकितेऽपितरि पश्यति धारवस्ये दूरं दुरुक्तिनिकतसगधो निजाम्बा सावी वि स्वगर्मगतिसन्तरणाय पुंसा त्वत्पादमेव शरणम् शिशवे सशंस आकर्ण्यसो विभवदर्शन मानी निरेत्य नगरात् किल पञ्चवर्ष सन्दृष्ट नारद निवेदितमन्त्रमार्ग त्वामाररात तपसा ताथे ताते विशन्नहृदयेन करीम् गतेन श्रीनारदेन परिशान्त्वितचित्तवृद्धौ दर्तमनाक्रम वर्धि इन्े कठोरतपसा किल पंचमसवो भल निरश्वसी दिगंते दवातस्त मुदयु्रतेत्रूपचिनील ने पुरस्ताद आविर्बू विभो गुा त्वद्दर्शन प्रमत भारतरङ्गिदम् तम् दृग्भ्याम् निमग्निमिव ब्रूप रसायनेते तुष्टुषमाणमवगम्य कपोलदेशे सम्पृष्टवानसि दरेण तथा विभोत विमलम् प्रणुवन्तमेनम् आपाशदास्त्वमवगम्य ददीय भावम् राजम् ूय सर्वोत्तरम् ध्रुवपदम् विनिवृद्धिहीन इत्यूषि स्वैकजे नृपनन्दनोऽसौ नगरीमुपेत रेमे भवदनुग्रहपूर्णकाम ताते गते च वनमातृधराज्यबार यक्षेण देवनिकते पुनरुदमेऽस्मिन् यक्षै स युद्धनिरतो विरतो मनुक्त्या सान्त्या प्रसन्नहृदयात्तनधातुभेता त्वग्भक्तिमेव सुदृटामवृणोन्महात्मा अन्ते भवत्पुरुषनीतविमानयाता मात्रा समम् ध्रुवपते मुदितोऽयमास्ते एवम् स्वरूप्यजनद्बालनलोलदिस्त्वम् वातालयातिपनिरन्तिममामयोगान् ॐ नमो नारायणाय